श्रीहरे नमः अथ सप्तासीतिधमोऽध्यायः परीक्षितु वाचा ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः कथं चरन्ति श्रुतय साक्षात् सदसतः श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानाम् अश्रुजत्प्रभुः मात्रार्थं च आत्मने कल्पनाय च शैष्याह्युपनिषद् पूर्वेशां पूर्वेषां पूर्वजैदृता श्रद्धया धारयेत्यस्तां क्षेमं गच्छेद किञ्चनः अत्प्रते वर्णयिष्यामि गातां नारायणां विताम् नारदस्य च संवादम् ऋषेर्नारायणस्य च ये गता नारदो लोकान् पर्यटन् भगवत्प्रियः सनातनं ऋषिं द्रष्टुं ययो नारायणाश्रमं यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तयेन्दृणां धर्मज्ञानसमोपेतम् आकल्बादास्तितस्तपः तत्रोपविष्टं ऋषिभिः कलाभग्रामवासिभिः परीतं प्रणदोब्रच्छमेव गुरुद्वः दिदमेव गुरुत्वः तस्मै ह्यवोचद्भगवान् ऋषीणां शुन्वधामिधं यो ब्रह्मवाध पूर्वेषां जनलोकनिवासिना श्रीभगवानुवाच स्वायम्भुव ब्रह्मसत्रं जनलोके भवत्पुरा तत्र स्ताना मानसानां मुनीनाम् गतवती त्वयि द्रष्टुम् तदीश्वरम् ब्रह्मभातस् सुसंवृद्ध श्रुतयो यत्र सेरथे तत्र हायमभूत् प्रश्नस् त्वं मां यम् अपृच्छसि तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाह अपि चक्रुप्रवचनमेकं शुश्रूषवो परे सनन्तनौ सयानं सखशक्तिभिः दधन्ते बोधयाञ्चक्रोस्तिङ्गैः श्रुतयः परम् यथा स यानं सम्राजं वन्दिनस्तत्पराक्रमैः प्रत्युषेभ्येत्य शुश्लोकैर्बोधयन्त्यनुजीविनः जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभः अगजगतो गसं किल शक्त्यवभूतकते क्वचिदजयात्मना च चरतोनु चरेन्निगमः बृहदुपलब्धमेतद् अवयन्त्यवशेषतया यदवुतया स्तमयो विकृते मृदि वा विकृतात् अतरुषयो ददुस्त्वये मनोवचनाचरितं कथमयथा भवन्ति भुवे दत्तभदा निन्द्रणा इति तव सुरयस्रधिभते किल किमुत पुनस्वधाम विधुतासयकालगुणाः परमभजन्ति ये पदमजस्रसुखानुभवम् धृतय इव स्वसन्त्यः शुभ्रुतो यदि तेऽनुविधा महदघमाधयोऽण्ढमसृजन् यदनुग्रहतः पुरुषविधोऽन्वयोऽत्र सरमोन्नमयो दिषु सदसत परं त्वमत यदेष्वशेषमृतम् उतरमुपासते यसृषिवर्तमसुकूर्भदृशः परिसरपद्धतिं हृदयमारुणयोधहरं तत उदघातनन्त तव धाम शिरः पुनरिकयत् समेत्य न पतन्ति स्वकृतविचित्रयो निषु विसन्निवहेतुतया तरतमतश्च गात्स्य न लभत् स्वकृतानुकृतिः अत वितता स्वमूषो अविततं तव धृतोश कृतम् इति भृगतिं विविच्य कवयो निगमावपनम् भवत उपासतेऽ्रिमभवं भुवि विश्वसिताः दुरवगमात्मतत्त्वनिगमाय तवात्तनोः चरितमकामृधाब्धि परिवर्त परिश्रमणाः नरिपरिलषन्ति केचित्पवर्गमपीश्वरते शरणसरोजहंसकुलसङ्गभिस्रुष्टगृहा त्वदनुपथम् कुलायमिधमात्मसुहृत्प्रियवत् चरति ततोन्मुखे त्वयि हि ते प्रिय आत्मनि च नभतरमन्त्यको असदुपासनयात्मह नो यदनुशया ब्रह्मत्युरुभये कुशरीरभृतः निभृतमरुन्मनोषदृटयोगयुजो हृदियेत् मुनय उपासते तधरयोपि ययुस्मरणात् श्रियगुरगेन्द्रभोगभुजदण्डविषग्धति वयमपि ते समासमदृशोऽग्रिसरोजसुदाः कैहनुभेदभथावरजन्मलयोऽग्रसरं यदमुदगातृशिर्यमनुदेवगणावुभये तर्हि न सन्दसाशदुभयं न किमपि न तत्र शास्त्रम् अवकृष्य सईत य धनिमसदसतोमृतिमुतात्मनि ये च भितां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः त्रिगुणमय पुमानितिभिध यदबोधकृतं त्वयि न ततः परत्र स भवेदवभूतरसे सतिव मनस्त्रिवृत्त्वयि विपात्य सदामनुजात् सद बिम्बृशन्त्य शेषमितमात्मतयात्मविदः न हि विकृतिं यजन्ते कनकस्य तदात्मतया स्वकृतमनुप्रविष्टम् इदमात्मतया वसितं तव परिगे चरन्त्य किल सत्वनिकेतदया तौ उदभधा क्रमन्त्य विगणय्य शिरो निरृतेः परिवयसे पशुनिव गिराविभुधानपि तां स्वयि कृतसौहृदा खलु पुनन्ति नये विमुखाः तव बलिमुत्पन्ति समधन्त्य जया निमिषाः वर्षभुजो किलक्षिति पतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः स्थिरचरजातयस्युरजयोत्तनिमित्तयुजो विकरबुदीक्षया यदि परस्य विमुक्त न हि परमस्य कश्चित् अपरो न परश्च भवेत् वियत इवापदस्य तव शून्यतुलां दधतः अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः तर्हि न नियमो ध्रुवनेतरताम् अजनि च यन्मयं तद विमुच्य नियन्त्रो भवेत् सममनुजानतां यदमतं मददुष्टतया न घटत उद्भवः प्रकृतिपूरुषयो रजयोर् उभययुजा भवन्त्यशुभृतो जलभुद्भुतवन् त्वयि नयि मे ततो विविध नाम गुणैः परमे निरुषुतवमायया ब्रह्ममीक्ष्व गत्यभृशं त्वयि सुधियो भवे दधति तमनुवर्तताम् भव भयं तव यत् भृगुटेः सृजति मुहोस्त्रिणे मिरभवश्चरणेषु भयं विजित ययिकयतन्ति यन्तुमतिलोलम् उपायगितः व्यसनसतान्विता समवहाय गुरोश्चरणं वणिज इवाजसंयकृतकर्णधरा जलधौ स्वजनसुतात्मधारधन धामधरा सुरतैः त्वयि शयत आत्मनि सर्वरसे इति सत जानतां मिथ नतो रथये चरतां सुखयति कोन्विकस्व विकते स्वनिरस्तभगे पुवि पुरु पुण्यतीर्थसधनान्य ऋषयो विमधाक उदभवत्पधाम्बुजहृदो गभिधङ्क्रिजलाः दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् सथ इदमुत्थितं सदिति सेन्ननु तर्कहतं व्यभिचिरति क्वच क्वचं मृषा न ततो भययो भ्रमयति भारतीत जडान् न भविष्यतो धमग्र आसन भविष्यत निधनान् धनुमितमन्तरा त्वयि विभाति मृषैकरसे अथ उपमीयते द्रविणजातिविकल्पतेर्वितमनोविलासं मृतमित्यवन्त्यभुताः स यध जया ध्वजामनुसहितगुणांश्च भजति स्वरूप तां तदनुमृत्युमपेदभगः त्वमुत जघासितामहिरिवत्वचमात्त भगो महर्षिमकीयशेष्टगुणिते परिमेयभगः यदि न समुद्ध्रन्ति यतयो कृदि कामझटाकां धुरधिगमोऽ सतां कृदि गतो स्मृतकण्ठमणिः अश्रु अशुद्धृप अशुत्तृपयोगिनामुभयतोऽप्यसुखं भगवन् अनपगतान्तघातनधिरूटपदाद्भवतः त्वदवगमीन वेत्ति भवधुप्तशुभाशुभयोर्गुणविगुणान्वयां स्तर्हि देहभृतां च गिरः अनुयुगमन्वकं सगुणगीतपरम्परया श्रवणभृतो यतस्त्वमभवर्गगतिर्मनुजैः द्युपतय एव तेन ययुरन्तमनन्ततया कैवरजांसि वान्ति वयसा सगयच्छ्रुतयः त्वयि हि पलन्त्यतन्निरसनेन भवन्निधानाः श्रीभगवानुवाच इत्येतद् ब्रह्मणः पुत्र आश्रित्य आत्मानुशासनं इत्यशेषसमाय पुराणोपनिषद्रसः समुद्धृतपूर्वजातैर्व्योमया नैर्महात्मभिः त्वं चैतद्ब्रह्मधायाध श्रद्धयात्मानुशासनं धारयश्चरघां कामं कामानां भर्जनं नृण श्रीसुख उवाच एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः नारदौ उवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये यो धत्ते सर्वभूतानाम् अभवायो इद्याद्यं ऋषिमाणं य तश्चिष्यांश्च महात्मनः ततो गाताश्रमं साक्षात् पितुर्द्वैपायनस्य मे सभाजितो भगवता कृतासनपरिग्रहः तस्मै तत् वर्णयामास नारायणमुगात् मुगा, मुगादृच्छं इत्येतत् वर्णितं राजन् यन्नः प्रश्नकृतस्त्वया यथा ब्रह्मण्य निर्देश्ये निर्गुणेऽपि मनश्चरे योष्योद्यप्रेक्षक आदिमध्य निधनेयो व्यक्तजीवेश्वरो यसृष्ट्वेतमनुप्रविश्य ऋषिणा चक्रे पुरस्ता पुरः स्थिताः यं सम्पद्य जघात्यजामनुसये सुप्त कुलायम् यथा तं कैवल्यनिरस्तयोनिमभयम् ध्यायेदजस्रं हरिम् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते नारथनारायणसंवादे वेदस्तुतिर्नाम सप्ताशीतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दगोविन्द सद्गुरुनाथमहाराज की जय